गणेशपुराणं क्रीडाखण्डम् अध्यायम् एय्टिसिक्स् क उवाच तदोऽङ्गात्सुदं गौरी नमस्कृत्य समाददे आज्ञां गृहीत्वा प्रायात्स्वं मन्दिरं भृषहर्षिता सोऽप्यनुज्ञां तदो गृहाय शिवं नत्वा श्रमं ययौ तदो गौरीचकारास्य सुमुहूर्ते शुभे दिने गौतमादीन् समाहूयभ्राह्मणानुपवेश्य च द्विजेभ्यो नमया चक्रे सा प्रणम्य स्वयं च तान् सर्वे देवगणास्तत्र नानो पायनप्राणयः आययुस्तं गणान् चापि गन्धर्वाप्सरसस्तथा उवाचगौरी तान्विप्रानुपवेशनमस्यः विचार्यं सर्वमुनिभिः कुर्वन्तु द्विजपुङ्गवाः ऊचूर्मुनय सर्वे गुरुवारस्त्रयोदशी पौष्णं नक्षत्रमद्यास्ति तस्मात् कार्यो महोत्सवः तदोगृत्समदशीख्रं नाना रत्न च जम्भुवि निधाय च चकाराशु चतुष्कं रत्ननिर्मिदं कृत्वा पुण्याः वाचनं तथा देव्यवस्त्रावृते तस्मिन्नुपवेश्य शिवा सुतं नीराजयमासतं पदिवस्त्रीभिरादरादरत्नप्रभाजालगदं नानालङ्कारदीपिदम् उपायनानि ते सर्वे शिवाभ्यां तत् सुदाय च वाद्यत्सु दिव्यवाद्येषु प्रददुर्भक्ति तत्पराहा। सा पूजय ततो विप्रान् रत्नवस्त्रादिकाञ्चनैः आशीर्वादाक्षतांस्तस्मिं चिक्षेप सकलार्पितान् पत्नी गिरिजे भानी पूजयामस मुन सक तूचुर्गिजेधन्यदन कुचिदेदादृशस सुधो वापक्षणि क उवाचत्सु सर्वस्त्रीज महाखल व्योमासुरो व्योमकर्णो नाना मायाविशारदः न बले सदृशस्तस्य कोऽपि त्रिभुवने भवद सदुद्वारिस्थितं चूदं नानाशाखासमन्वितम् अभेद्यं वारणशधैकल्पान्तमरुतैरपि प्रविवेश तदा व्योमो मायया स तदन्तरं यथा दृष्टिवशाद्भूतं विशदे दुष्टचेष्टिते दोलयामासतं वृक्षं कल्पान्ते मारुतो यदा द्रुमपादभयात् सर्वे मुनयश्च समागताः ीदा प्रोचोर्विना वायुं कम्पदे किम् महाद्रुमः तावत्कटकडाशब्दम् शुश्रुवुर्वृक्षसम्भवम् स्त्रियो गणाश्च सर्वे ते चक्रिरेदुपलायनम् विस्मृत्य बालकं भ्रान्ता गिरिजापि पलायिता यदस्मिन्नन्तरे वृक्षो निपपादार्भके तदा अस्ताभ्यां निहतस्तेन शतचूर्णोपदद्भुवि यथा कननिपातेन क्रमुकं दृषधि स्थितं भ्रमन्ति ताखा पल्लवान्वता ऋषीणमाश्रम केजिभ्ना शाखा निपतदि जने पे दुख काचिच शाखा स पल्लवा त्योसुरो दुष्टो गुर्प ्यादायास्यं वमन्रक्तं शदधा तेन सोभवद आययुस्ते तद सर्वे स्त्रियस्य बालकं तदा ददृशुस्ते यथा पूर्वमुपविष्टं निराकुलं सुमेरुनिश्चलं स्वस्थं तदसर्वे विसिस्मिरे पञ्चमासेन बालेन महाबलपराक्रमः लीलया हस्तदो दैत्यः स वृक्षशतधाकृतः हाहाकाररवा गौरो धावदिस्म स्म निजं सुदं मुनयस्तामधोचुस्ते हददैत्य सुतस्तवः सा ददर्श तदो बालं हिमवत्पर्वतोपमा उद्धाय पडिदेशे तं धृत्वा स्तन्यं ददौ मुदा मरीचिवाक्यं सस्मारप्रशं स महेश्वरं यमीश्वरो वदि सदा तं हन्तुं यः स एव विलयम्यादिपदङ्ग इव दीपकः मुनयो योषितः सर्वा ययुत्स्वम् स्वम् निवेशनम् तदोगणा ययुक्ते जिदक्षतम् वीक्ष्य तत्सुतम् ऊचोर्धन्यतरामादारक्षितस्ते सुदो सुराद दुष्टा एव लयं यान्ति साधुर्न क्वापि सीदधि तदस्सा तेभ्यो दत्त्वाज्ञां प्रददौ शिवा सर्वाभ्यश्च ततो यादा दृष्टा तेन निजं गृहं य या इदं शृणुयात् पुण्यमाख्यानं भक्तिमान्नरः सर्वत्र न स बाधा लभे क्वा भवेदिश्री गणेशपुराणे क्रीड़ाखंडे भूम्युपवेश वर्णन नाम षडशीध्याय